सम्पत्तिप्राप्ति त्वामऋषे घनं केन् बी स्टाण्डर्ड् एनि डे एनि टैम् वाक्यम् त्वामद्यष आ ऋषय ऋषिणान्नपादवृणीताय यजमानो बहुभ्य आ सङ्गतेभ्य एष मे देवेषु वसुवर्यायक्ष्यत इति ताया देवादेव दानन्यदुस्तान्यस्मा आ च शास्वा च गुरुश्वेषितश्च होतरसि भद्रवाच्याय्य प्रषीदो सोक्ता ब्रूहि घनम् त्वा मद्याद्यत्वान्त्वा मद्यर्शे द्यत्वान्त्वा मद्यर्षे अद्यर् शर्षे द्याद्यर्ष आर्षे यर्षयर्षे द्याद्यर्ष र्षेय ऋष आर्षे यार्षे यर्षर्ष आर्षेयर्षिणामृषिणामार्षे यर् शर्ष आर्षेय ऋषिणाम् आर्षय ऋषिणामृषीणा मार्षे यर्षय ऋषिणान् पान्नपा दृषीणामा ऋषे या ऋषयर्षीणान्नपाद वृषीणान्नपान्नपादृषीणा मृषीणान्नपाद वृणीता वृणीतन पादृषीणा मृषीणान्नपादवृणीत न पादवृणिता वृणीतनपानपादवृणीता यमयमवृणीतनपानपादवृणीता यम् अवृणीता यमयमवृणीता वृणिता यै यै यजमानो यजमानो यमवृणीता वृणीता ययजमानः अय्यै यजमानो यजमानो यमय्यजमानो बहुभ्यो बहुभ्यो यजमानो यमय्यजमानो बहुभ्यः यजमानो बहुभ्यो बहुभ्यो यजमानो यजमानो बहुभ्य आ सङ्कतेभ्य सङ्कतेभ्य आ बहुभ्यो यजमानो यजमानो बहुभ्य आसङ्कतेभ्यः बहुभ्य आसङ्कतेभ्य सङ्कतेभ्य आ बहुभ्यो बहुभ्य आसङ्कतेभ्य एष एष सङ्कतेभ्य आ बहुभ्यो बहुभ्य आसङ्कतेभ्य एषः बहुभ्य इति बहुभ्यः आसङ्कतेभ्यः सङ्कतेभ्य एष एष सङ्कतेभ्य सङ्कतेभ्य एष मेम एष सङ्कतेभ्य सङ्कतेभ्य एष यशमे मा यषयेषमे देवेषु देवेषु मा देवेषु मे देवेषु देवेषु मे देवेषु वसु वसुदेवेषु मे देवेषु वसु देवेषु वसु वसुदेवेषु देवेषु वसु वारि वारि वसु देवेषु देवेषु वसु वारि वसु वारि वारि वसु वसु वार्या यक्ष्यदे यक्ष्यद आ वारि वसु वसु वार्या यक्ष्यते वार्या आ वारिवार्या यक्ष्यद इति यक्ष्यद आ वारिवार्या यक्ष्यद इति आ यक्ष्यते यक्ष्यद इति यक्ष्यदे यक्ष्यद इति ता तेदि यक्ष्यदे यक्ष्यद इदि ता इति ता तेपीति Taya Yatehiti Taya Taya Yadataya Deva Deva Yadeva Deva Yaya Deva Deva Deva Yaya Deva Deva देवादेवा देवदेवा देवादेवा दानानि दानानि देवा देवा दानानि देवदानानि दानानि देवदेव दानान्यदोर दुर्दानानि देवदेव दानान्यदोहो दानान्यदुरदुर्दानानि दानान्यदुस्थानि तान्यदुर्दानानि दानान्यदुस्थानि ्यस्म अस्मै तानि तान्यस्मच्यस्म अस्माचस्म अस्म आच शाश्व शाश्व शास्व च गुरुस्व गुरुस्व शा स्वा स्वाच गोरो स्वा आच्या गोर स्वा गोरो स्वाच्या गोर स्वेशेदाशेदो गोरा स्वाच्या गोर गुरस्व गुरस्वेशितश्च चषिदो गुरस्व गुरस्वेशितश्च यशितश्च च शिद इशितश्च होदर्होदश्च शिद इशितश्च होतः च होदर्होदश्च च होदरस्यसि होदश्च च होदरसि पोदरस्यसि होदर् होदरसि भद्रवाच्या अय भद्रवाच्या यासि होदर् होदरसि असि भद्रवाच्या अय भद्रवाच्या यास्यसि भद्रवाच्या यास्यसि भद्रवाच्याय प्रेषितः भद्रवाच्याय प्रेषितः प्रेषितो भद्रवाच्याय भद्रवाच्याय प्रेषितो मानुषो मानुष प्रेषितो भद्रवाच्याय भद्रवाच्याय प्रेषितो मानुषः भद्रवाच्याय यदि भद्रवाच्याय प्रेषितो मानुषो मानुष्यप्रषीद प्रेषितो मानुष्यसूक्तवाकाय सूक्तवाकाय मानुष्यप्रषीद प्रेषितो मानुष्यसूक्तवाकाय प्रेषित यदिप्र इषितः मानुष्य सोक वाकाय सोक वाकाय मानुषो मानुष्य सोक वाकाय सोक्त सोक्दा मानुषो मानुष्य सोक वाकाय सोक्त सोक वाकाय सोक्तद वाकायसोक्त वाकाय सोक्ता ब्रोहि ब्रोहि सोक्तदा सोक्तद वाकायसोक्त वाकायसोक्ता ब्रोहि सोक्त वाकायेति सोक्तदा वाकाय सोक्ता ब्रोहि ब्रोहि सोपदा सोक् ब्रोहि सोपदे उक्ता ब्रोहि दि